यजमा विश्वाभुवनानि जग्पदृषु होताविषादापिता नः स आदिशाद्रविणमिच्छमानः परमच्छदोवर आविवेश विश्वकर्मा मनसा यद्विहाया धाता विधाता परमो च सन्दृग एषामिष्टानि समिषा मदन्ति यत्र सप्तऋषेन् परमेकमाहुः यो नः पिता जनिता योगिजाता यो नः सतो अभ्यादर्जानेवानामधाकयेवत पुंसम् प्रश्नम् भुवनायन्त्यन्या सायन्तद्रविणपुंसमस्मार्शयः नभूना न भूना असोर्वासोऽर्तारजसाभिमाने ये भूतानि समगृण्वन्निमानि न्तरम् भवादिहारेण प्रावृता जल्त्यारन्ति परो दिवा परगेना पृथिव्या परो देवेभिरसुरेर्गुहाय चिद्गर्भम् प्रथमम् दध्राभूयत्तदेवाः समगच्छन्त विश्वे भम् प्रथमम् दर्धा भो यत्र देवाः समगच्छन्त विश्वे अजस्य नाभावर्थे दे गमर्पिण यस्मिन्निदम् विश्वम्भुवनमधिकर्माष्टदेवायुक्तम् धर्मद्वितीयः तृतीयः पिताम् गर्भम् यदधा चक्षुडः पिता मनसा घृतमेने अजनन्नन्नमाने यदेतन्ता अदृहन्तपूर्वादिद्या वा पृथिवी अप्रदेता विश्वतश्चक्षुरुत विश्वतो मुखो विश्वतो संभाव विश्वतस्पर् सम्बाहोभ्याम् नवदिसम्पदत्रयभ्या वा पृथिवी जनयन् देव कुट्यस्मिदासेदधिष्ठानमारम्भणम् कतमश्चित्मासे भूमिम् जनयन् विश्वकर्मा विद्रामो विश्वचक्षाः कुथवृक्षेद्य मनसा पृच्छदृतभुवनानि धारयन् याते धामानि परमाणि याव मायामध्यमा विश्वकर्म नुते मा शिक्षासखिभ्याः विषस्व धाव स्वयम् यजस्वदमवञ्जुषाणः वाचस्पतिम् विश्वकर्माणमोतये मनोयजम् वाय अद्याहुवेमा स नो नेष्ठा हवनानि ज्योषते विश्वशम्भो नवसे साधु विश्वकम्मन हमिषावावधानः अभिरः समर्दा इहास्माकम् मघवा सूरिरस्तु विश्वकम् मन हमिषावर्धनेन त्राता रविन्द्रमकर्णोभ्याम् तपस्मे समानन्दपूर्वेरयमुग्राविहव्या यथा समुद्राय वयुनाय सिन्धूनाम् नमः म् सर्वासाम् पित्रेऽजुहुता विश्वकर्मणे विश्वाहामर्त्यगुम् हविः नयाग्ने हृदय नाहुताय शोषेण सगुंस च प्रजया च धनेन च इन्द्रियमम् प्रतरान् कृषितजातानामसद्वशी समे नम् वर्चसा स च देवेभ्यः कथा असते यस्य कुर्मया त्वम् तस्मै देवाभियन् च ब्रह्मणस्पतिः उदुत्वा विश्वे देवाग्नेभ्यः सदाभव शिवतमः प्रत्येको विभावसुः पञ्चदिशो देवेर्यज्ञ भवन्तु देवेरपामयन् दुर्मम् राधमानाः यस्पोषयज्ञपतिमा भजन्ते राजस्पोषे अधियज्ञो अस्थात् समिद्धे अज्ञानः उक्थवध्रये ज्ञागभेतस्तप्तम् धर्मम् परिगृह्या यजन्त ऊर्जाय जज्ञमशमन्तदेवादेव्यायस्रेजोष्ट्रे एव श्री श्रीमणा शतमयाः परिगृह्य देवायज्ञमायन् हरिकेजः पुरस्ता समितारुदयागुम् अजस्रम् तस्य गोढा प्रथमैया सम्पश्यन् विश्वाभुवनानि गोपाः देवा देवेभ्यो अद्भर्यन्तो अस्थर्वेदकुन्दमित्रे च पिता यजध्यैः पुरीयो हव्यमे निरतः पाभका आशितो नो न्तरिक्षादभिचक्चेरन्तरा पूर्वमपरम् चेतम् पर्णः पूर्वस्य योनिम् विदुराश्चिल स्वामिनक्रमेपात्य सङ्गिरः म् पदम् यज्ञो देवागुमाजवक्षेवागुम् आजवक्षद आजमा प्रथमे नाभेणादग्रहेत् अथा सुपद्रागुम् इन्द्रमे निग्राभेणाथरागुम् अतः ग्राभम् च निग्राभम् च ब्रह्मदेवामे वृसन् अथासमत्रानिन्द्राग्ने घनहक्षोघनश्चनानि मिषरे कवेर शतगुण्डेन अजयत्सागमिन्द्रः सङ्क्रन्दनेनानि मिषेण जिष्णुना युत्कारेण दुश्च वनेन जष्णुना अजिन्द्रेण जय न तत्सहद्ध्यो न रविषुहस्तेन विष्णाः सहस्ते सरि कण्डवशे रस्रष्टादविषयेन द्रष्ट यत्स्वपाहु सद्भ्योराभिरष्टाः बृहस्पते परिकीया रक्षोहामित्रागम् अपबाधमानः प्रभेन्नस्माकमे म् वज्रवाहुञ्जयन्तमध्मप्रमणन्तमोजसानुवेरयमिन्द्रखायो प्रवीरः सहस्वानुभाये सह मान उग्रः अभिलेरो अभिधत्त्वादो जालयेत्रमिन्द्ररथमानिष्ठगोविद अभिगोत्राणि मानो धायो वीरः शतमन्यः नुष्यवनः प्रदनाशादयद्यास्माकम् सेनावधोपयत्सो इन्द्रेता बृहस्पतिर्दक्षिणा यज्ञः पुरगेतु सोमः एव सेनानामभिषञ्जलीनाम् जयन्तीनाम् मरुतो यन्तग्रे इन्द्रस्य विष्णो वरुणस्य राज्ञः आदित्यानाम् मरुता किंशब्धमुग्रम् महावनसाम् भुवनच्छवानाम् घोषो देवानाम् जयतामुदस्थात् अस्माकमिन्द्रस्तमुदेषध्वजेष्वस्माकय्यायुष हस्ताजयन्तो अस्माकम् वीरा उत्तरे भवन्तस्मानुदेवा अवताहवेषणायुधान्युत्सत्मनाम् मामकामाम् महापुंसे इन्द्रावर्शर्म यच्छत्पदाशिष्या यथा तथापरापदशरव्ये ब्रह्म सकुंशिताञ्चनाच्छिषः स्ते अस्तुत्वात्रपाणाः सम्पदन्ति कुमारादि शिखा इव इन्द्राणस्तत्र वृद्धः विश्वाः धर्म यच्छतु गत्वाहमुदन्तरिक्षमानुभम् अन्तरिक्षाद्दिवमानुभम् दिवो नागस्य पृष्ठात् सुगामहम् सुवर्यन्तो नापे क्षन्तः रोहन्तिरोदधि यज्ञे विष्मतो धारकुम् सुमिद्वागुम् सोपिते निरे अग्ने प्रेः प्रथमो देव यदा चक्षु देवानामुदमर्त्या ये क्षमाणा भृगुभिः सजोषा सुवर्यन्तविदमानाः समनसा विलोपे धापय ते शुमेची जावाक्षामा लुक्मा अन्तर्विभाजयवाग्न्धायन्द्वविनोदाः के सहस्राक्षसमूर्ध्वम् च सन्देह प्राणाः सहस्रमपाणाः पुंसाहस्रस्य राजनीषु चेतस्मै देविधेममाजा यस्मा पर्णादिकरोत्मान् पृथिव्यांसेतपृष्ठे पृथिव्यासेतभासान्तरिक्षमापृद्योक्तभारते च साधिगुम्भा आयुह्वानः सुप्रदेकः पुरस्तादर्ण्यो नियमासेतसाध्या अस्मिन् स्वधस्थे अध्युत्तरस्मिन् विश्वे देभा यजमानश्च सीतता परमे मेरवरे ृदायथाद्धे सांस विदुर्वरेण्यस्य निहम् प्रणे सुमतिम् विश्वजन्या यामस्य कण्नागम् सहस्रधायसा महेङ्गा सप्तदयमिदः सप्तदेत्वा सप्तऋयः सप्तधामप्रियाणि सप्त धात्वा यजन्ति सप्तयानेना धृतेन ईदृङ्गान्यादञ्जैता प्रतिलङ्कमितष्टधम्मितष्टतभराः शुक्रज्योतिश्च चित्रज्योतिश्च सत्यज्योतिष्ट्योतिष्मागश्च सत्यश्च तपाश्चात्यनुहाः यतजिच्च सत्यजिच्य सेन सुरेषेणश्चान्त्यमित्रश्च धूरेण मित्रश्च घनः यतश्च सत्यश्च ध्रुवश्च धरुणश्च धर्ता च विधर्ता च विधारयः ईदृक्षासये तादृशा स भूषुणः सदृक्षाधप्रतिसदृक्षासयेत मृतो विकासश्च संविकासश्च न भूतये स भरतो मरुतो यज्ञे अस्मिन्निन्द्रन्दैवेर्मिषो मरुतोऽनुवर्त्मानो यदेन्द्रन्दैवेर्मिषो मरुतोऽनुवर्त्मान एवमे मानुषेश्चानुवर्त्माना भवन्तो देवो तस्यैवप्रदेकम् यद्वर्मीयादिसमतामुपस्थे अनाविधयादनुवादयर्तकम् सत्त्वा नाम हिमापि पर्तो धर्मधन्म नायुञ्जयेम धन्म न ते व्राः समजोजयेम धर्मश्रत्रोरपकामम् कृणो निधन्म नार्वाः प्रतिशोजयेम लक्ष्यन्ति वेदागमेगन्ति कर्णम् प्रियकम् सखायम् परिषस्वजाना नोषे वशङ्ेऽपि चतादिसन् पञ्चा इयुम् समने भारयन्ति आचरन्ति समने वयोषा मातेव पुत्रम् विभृदा नुहस्ते अपशत्रून् विद्यदागुम् संविधाने आर्ति इमे विस्फुरन्ति अमित्रान् बह्वीणाम् पिता बहुरस्य पुत्रश्चाकृणोति समनामगत्य ङ्गाः पृतनाश्च सर्वाः पृष्ठेण प्रसूदः तिष्ठन् वाजिनः पुरो यत्र यत्र कामय तेदुषारथिषो नाम् महिमानम् पनाय गमः पश्चादम यच्छन्ति रश्मयःपानय स्मारथेभिः सह वाजयन्तः अपक्रामन्तः प्रपदे रमित्रान् क्षिणन्ति शत्रुगुणवञ्जयन्तः ना रथवाहनगुंहविरस्य नाम यत्रायुधन् निः दमस्य वर्म तत्रारथमुपशक्मकुंस जामविश्वाः वजगुंसवनस्य मानाः सादृशकुंसलः पितरावयोधाकृच्च शक्तिमन्त ुरवादसा ब्राह्मणादः पितल सौम्यादशिवे अनेहसाः पुराणः पादुचारक्ष्यामा जन्मोऽसरीशतम् हस्ते मृगो अस्यादन्तो गोभिः सन्नद्धापदनिप्रसूता यत्रा नरः सञ्च विजन्त्रवन्ति तत्रास्मभ्यपिषपः शर्म यन् परिबृन्धिनोऽस्मा भवतुः शर्म यच्छसो आजन्ध्यन्ति सान्वेषाम् जघनागम् उपजिभ्यते अश्वाजनि अभिनिरुभोगे परिजयज बाहुञ्जाया हेतुम् परिबाधमानः हस्तग्ना विश्वा वैरान् विद्वान् पुमान् पुमागुम् सम्परिपाय विश्वदः अनसज वेद्वम् गोरिभूजा अस्मत्सखा प्रदरणः सुरः गोभिः सन्नद्धीडयस्व स्थाय दुजयत्वानि ृथिव्यापरियोजमुद्भृतम् वनस्पतिभ्यः पर्यापृतगुम् सह अपामोज्ज्वालम् परियोभिरापृतमिन्द्रस्य वज्रगुम् हविनाथय इन्द्रस्य वज्रो मनुतामनेकम् स्वदुन्दुभेदो इन्द्रेण देवेर्दूरादी अपशेषशत्रू आक्रन्दयपनमोजो नासा निष्टुरितापासमानः अपप्रोचतुम् दुभेदुच्छुनागुम् इदरिन्द्रस्य मुष्टिरसि वीडयस्व आमोरजप्रत्यावर्तयमाक्य तुमद्दुन्दुभिर्भावदीति समस्तमर्णाश्चरन्ति नो नरोऽस्माकमिन्दरतिनो जयन्तो यदर्क्रन्दप्रथमम् जायमानबुद्यान् समुद्रामुदबापुरीडा शयणस्य भक्षा हरिणस्य बाहूत्यम् महितन्ते अर्वन् यमेण दत्तम् प्रथमो अध्यतिष्ठत् गन्धर्वो अस्य रचनामगर्भंसो राजस्कम्बस बोज अधियमो अस्यादित्यो अर्वन्नोक्येन असि सोमेन समयामि दृष्टाहुष्टेण दिवि बन्धनानि क्रीडिताहुर्दिविबन्धनानि त्रेऽ्यक्षुत्रेऽण्यन्तः समुद्रे उदेव मे वरुणष्ट्याम् सर्वजयत्रादाहुः परमम् जनितम् इमादेवायन्यपमार्जनानि चतुर्निधानाः अत्रादे भद्रादशनापश्य मदस्य च अभिरक्षन्ति गोपाः आत्मानन्दे मनसारादना ममो युगापदयन्तम् पदङ्गम् श्रुत अवश्यम् पतिभिरहमानम् भिल्डे पदत्रे अत्रादयरूपमुक्तममवश्यन् विजेषपयोगोः यदा ते मर्तो अनुभोगमानलाविकृतिष्ठवोषेरजीकः अनर्ता अवर्यो अर्वण्यगामोऽनुभगः कनी अनुराजारस्तव लक्ष्यमेवामीर्यन्ते हिरण्यशङ्गो यो अस्य पादामनोज भाव्र आदेवायुरस्य हविरद्यमायनयो अर्वन्दम् प्रथमो अध्यतिष्ठत् ये मान्तारस्य निजमध्यमादस्य यदाक्षिषुर्भिव्यमज्ञमश्वाः तव शयम् पदयस्पर्वम् तव चित्तम् वातयि मध्यजीवान् तव शृङ्गानि विष्ठिता पुरुत्रारण्येन दुर्भुरानाचरन्तिगाच्छामनसादेध्यानः अजः पुरोणीयजेनाभिरस्यानुपश्चा कपयोयन्तिरेभाः कुपप्रागाः त्वरमैयच्छमर्वा गुणच्छापितरम् मातरम् च ञ्जस्ततमो हि गम्याश्च राजैवार्याणि मानो मित्रो वरुणो अर्यमाय लिङ्गभुक्षा मरुतः परिक्षन्जिनो दैवजातश्चामो विदध्याणिर्निजाय क्रथादस्य राजिङ्गभेदाम् मुखतो लयन्ते नियोगेम् यद्विश्वरोभीन्द्रापूष्णोप्ये दिपार्थः एषच्छागः पुरो अश्वेन वागिना पूष्णो भागो दीयते विश्वदेव्यः अभिप्रियम् यत् पुरोटासमर्मदात्मस्तेगेन पुंसौ श्रवचार्य जिन्मति यद्धविष्य मृदयो देवयानन्तर्मानुषाः अत्राभोष्टः प्रथमो भागयेन यज्ञम् देवेभ्यः प्रतिभेदयन् नयः भवताद्भ्य रामयाज्ञमिन्धोऽदरक्ष्यस्तादविप्रः ग्रावा तेन यज्ञेन स्वरम् कृतेन स्पष्टेन वक्षणामृणध्वम् योगपुरस्ता उदये योपवाहा शशालये अश्वयोपाय दक्षति र्वदेपजनकम् सम्भरन्त्युतो तेषामभिगोद्गन्मयन्वतो प्रागात् सुमन्मेधायमन्वदेवानामासा उपवेतपृष्टः अन्वेन विप्रार्हृयो मदन्यदेवानान् पुष्टे च कर्मा सुबन्धौ लोदामचन्दानमर्वतो गाशीर्षण्यानसनालज्युरस्य क्षिकाशे रिक्तमस्ति निर्धस्तयो अपि देवेश्वस्तु यदोवध्यमुदरस्यापपादय आमस्य क्रविशो गन्धो अस्ति सुकृतार क्रण्वन्तु तमे सघुंशतपाकम् पचन्तु यत्ते यत्तेकात्रादग्निना वक्ष्यमानादभिषो रन्विह न स्यामधावति मातद्भोम्मात्रेषु देवेभ्यस्तु द्विषद्भ्यो रातमस्तु ये वाजिनम् प्रविपश्यन्ति पक्पञ्जलीमाहस्तुरभञ्जलहरयति येषार्वतो माघम् स भिक्षामुपासतमुतो तेषामभिगो निर्णयिन्वतो यन्नेक्षणम् माघस्पजन्यामुखा याया पात्राणि योष्ण आसेदनानि ओष्ण्या विधाना च लोणामङ्काः सोनाः परिभोषन्त्यस्मम् निक्रमणम् निशलनम् विवर्तन यच्छदः यच्छ भवो यत् जघाजघा इष्टम् वेदमभियोम् कृतम् तम् देवासः प्रतिगर्भन्त्यस्वम् यदश्वायवासमुपस्कृनन्त्यशीहासय्यान्यस्मै सन्धानमर्बन्तम् पद्बीजम् प्रिया देवेष्वायामयन्ति यत्ते स देवः सा सोकृतस्य वाष्णया वा कृषया वा चोदा देवता हविषाध्वरेण सर्वादा दे ब्रह्मणा सूदयामि ेव्याभिष्टरश्वस्यापि शस्ता द्वायन्ताराभवतस्तशर्दुः ज्ञाने गात्राणामुखा गुणो विगातापिण्डानाम् प्रजुहा न वापो वेत देवागम्भिः हरे तैम् चा पठति अभो रामस्थाभस्य स्वगव्यम् नो वाजेश्व श्रियम्भः पुत्रागम् उत विश्वापुडगौरयम् अनागास्पन् नोक्षत्रम् नो अश्वभतागो हविष्मान् हो अग्नाविष्णो हजोषदेवावर्धन्तु भाङ्गिरः किम्नेवायभिरागतम् ष्टमे प्रथोष्टमे प्रष्टमे प्रजिष्टमे हृदिष्टमे क्रोस्तमे शरष्टमे श्लोगष्टमे श्रावोगिष्टमे शुष्टमे प्राणस्तमे बाणष्टमे ज्ञानञ्चम आधिमे वाक्यमे मनष्टमे चतुष्टमे चक्षमे मनञ्चम भोजष्टमे सहष्टम आयुष्टमे धनागमः धनोष्टमे जमे हर मैंगाल जमे साज में गोज में श्री राजमे ज्येष्ठञ्च माधिपत्यञ्च मे मन्यष्ट मे भामष्टमयमष्टमय अम्भश्च मे जैमाय मे महिमाज मे महिमाजमे पृथिमाजमय मष्पाय मे ग्राहुराज मय वृद्धञ्च मे वृद्धेश्च मय सत्यञ्च मय श्रद्धा च मय जगत्त मे धनञ्च मे वधश्च मय अञ्जनमे पन्तं जमर्दं जमर्दस्तमे नुक्तं जमेगक्तस्मे अदिष्टमे अदिष्टमे ञ मे वयश्च मे प्रियञ्जमे नुकामश्च मे कामश्च मे नो मनसश्च मे भद्रञ्चमे श्रेयश्च मे वस्यश्च मे युदष्ट मे भगश्च मे दुर्जमे युन्ताज मे शब्दाज मे क्षेमश्च मे धृष्टमे विश्वञ्च मे वायुविच्च सोष्टमे प्रसोष्टमे धीरञ्ज मे नयश्च मृदञ्च मे मृदञ्च जीवादुष्टमे दीर्घायुतञ्चमे दवित्रञ्चमे भयन्त मे सुगन्त मे शयनञ्च मे ूर्णय सोनृता च मय पजश्च मय मे ऋधिष्ठमय समेधिष्ठमय कृतिष्ठय दृष्टिश्च मे हयत्रञ्जमा उद्भिद्यंजमय हयिष्टमय राजश्च मय पुष्टञ्च मय पुष्टिष्टमय विभुज मय प्रभुज मय बहुज मय भोजश्च मय पूर्णञ्चमय पूर्णमय कृतिष्टमय गोधूमा मधुराष मे प्रियंगवे न वे श्यामस्मे दीवार अश्वाय मे मृत्तिकाज मे गिरयश्च मे पर्वताश्च मे शिखदाश्च मे वनस्पतयश्च मे हिरण्यं च मेयश्च मे शीर्षञ्च मे त्रोष्टमे श्रावञ्च मे लोहञ्च मे यज्ञश्च महापश्चमे भेरुधश्च मवोषधयश्च मे कृष्ण ष्टमगे अष्टम गृष्टमे गिष्टमय द्यश्च महीन्द्रश्च मे धोमश्च महीन्द्रश्च मे सुविदाय महीन्द्रश्च मे सरस्पते च महीन्द्रश्च मे भूषा च महेन्द्रश्च मे महीन्द्रश्च मे निजश्च महीन्द्रश्च मे मोर्धानमहीन्द्रश्च मे प्रजापतिश्च महीन्द्रश्च मे अगुंशुष्ट मे हस्मिश्च मे राभ्यस्त मेऽधिपतिश्च महु भागुंशुष्ट मेन्दर्यामश्च मेन्द्र वायवश्च मे नैत्रावरुणश्च महाश्विनश्च मे प्रस्थानश्च इत्यश्च मे लामित्यश्च मे राणस् मदस् मे बहु उष्णश्च मदस्तमे हारियो जनश्च ष्टमे वरिहिष्टमे वेधिष्टमे दृष्टयाष्टमे सुदष्टमे च मदाष्टमे ग्रावाष्टमे सरवस्तमव परमाष्टमेधवलमे द्रोणगरसमे वायव्यायजमे भोगुष्टमाधवलीयश्चमे वृद्धानञ्जमे गृहाष्टमे तदष्टमे पुरोराधाष्टमे अभताष्टमे वभृदष्टमे स्वगागारष्टमे अज्ञुष्ट मे धर्मश्च मेऽर्कश्च मे सौर्यश्च मे प्राणश्च मेश्व मेधस्त मे पृथ्वेत यज्ञेन कल्पन्ता मृत्य मेधामज मे सोमश्च मे यजुष्ट मे देक्षा च मे यज्ञेन कल्पेता ष्टमे वत्साष्टमय प्रविष्टमय प्रवेत मे ऋत्यवाच्य मे ऋत्यौहित मे पञ्जाविष्टमय मञ्जाबेत मे त्रिभत्सश्च मय त्रिभत्सा च मे दुर्यवाच्च मै दुर्यौहितमय पृष्ठवाच मय पृष्ठहेत मुक्षा च मे वशाच मृभक्ष मे वैहच्य मे मद्वाञ्च मे धेनुश्च यज्ञेन गम्पदाम् ज्ञानो यज्ञेन कम्पदामपानो यज्ञेन कम्पदाम् ज्ञानो यज्ञेन कम्पदाम् पञ्चक्षो यज्ञानकल्पदाकृष्वात्र यज्ञानकल्पदाम् महायज्ञानकल्पदाम्बा यज्ञानकल्पदा महात्मा यज्ञानकल्पदा यज्ञो यज्ञानकल्पदा एकादमे षष्टमे पञ्च मे सप्त नमे नव जमे एकादशतमे त्रयोदश नमे पञ्चदश नमे सप्तदशतमे नवदश जमे एकविगो धनिष्ठमे त्रया विगुं धनिष्ठमे पञ्चमि घो षरिष्टमे सप्तविघो षरिष्टमे नव विगो घरिष्टमेकत्रिगो षष्ठमे त्रयत्रिगो सप्तमे त्रमे अष्टौ च मे द्वादश जमे षोदश जमे विगुं षरिष्टमे अष्टाभिगो घरिष्टमे त्रिम्षत्यमेषत्रिंशत्यमे चत्वारिंशत्य मे चत्वारिष्टाचत्वारिमेवाजश्च प्रथमश्चाभिधश्च कृतश्चनो ध्यायव्यष्ट्यश्चान्त्यायनश्चान्तश्च भुवनश्च भुवनश्चाधिवनिश्च आयोनः सप्त प्रतिषष्टिनस्रोमापधावः आयो विश्वे अद्य मरुतो विश्वमूर्ले विश्वे भवन्तयः समिद्धाः विश्वे न देवावदागमन्त्र विश्वमस्त्वद्रवि नस्मे बालस्य प्रथमम् देवालये ज्ञाता हि अन्यये अज्ञागृहस्पदम् मरुदस्वामपेदये वाजे वाजयद वाजिनो अस्य मध्वपि मादयध्वम् तृप्तायादपृथिवया माजो देवायौ ऋतभिः कल्पयानि वायस्य हि प्रथमो रमे जिस्मा आशाजपजर्भवेयम् अयः पृथव्याम् पयोषधे रुपयो दिव्यन्तरे क्षेपयोधाम् पयस्पदे परिदर्शन् मह्यम् सम्मासजामिमयसाक्षते न संमासजा न्यवपोषधीभिःसनेयमग्ने नोषासा समनसा विलोपे धापय तेषु मेकुंसमेति रुक्मा अन्तर्विभाजने वाज्ञन्धारयन्तनोदाः समुद्रो जिनभस्वाद्रदा न शम्भोर्म यो भोरभिमा वा हिस्वाहातः गणः शम्भोर्म यो भोरभिमा वा हिस्वाहास्वान् शम्भोर्म यो भोरभिमा वा हि स्वाहाय्यज्ञम् वयसा बृहन्तम् येन वयम् पदेम प्रधश्च विष्टपुंस वोर्भानाधिराय उत्तमे स्यग्ने पुराणाः हिरण्यवक्षस्य गुणाभुरञ्जन् महान् ध्रुवत्तः नमस्ते अस्तु मामांसे विश्वस्य मोर्धनश्च ृदयमन्तरा यज्ञा वाजेवादधिवः पर्जन्यादन्तरिक्षात् पृथिव्यामिष्ट्या वद पृथिव्यानाभिरोर्धमामोषधीनाम् विश्वायः शर्म सप्रधानमस्पथे एदवदा सत्तमाधेन्धानाद्योभरन्तः लोके पृष्ठे अधिरोगे दिवः सत्त्वज्यज्ञानः पृष्ठे पृथिव्यानि हि तोदविद्युदङ्कर्मे पृथन्यवः अयमज्ञमो वयोधाः सहस्त्रियो जेत्य धाम प्रयच्छन् विभ्राजमानस्य विरस्य मध्यगुहप्रया दिव्यानि धाम संरच्च वध्वनुसंप्रयाताज्ञे पथोदेवयाङ्कृम् अस्मिन् अध्युत्तरस्मिन् विश्वे देवा विजमानश्च चेतदा येन पुनः कण्मर्गस्ता वितरयमानमन्वादान्त जातो अरोः यन्त्रेन्धानास्तनवम् पुषेण्यक्षेण पदनाल्येन हवे सन्तुर्वैन्द्रावन्ता मरुताविष्टलग्निः अन्तरिक्षमृगापनस्तु भ्यम्बादकामे अस्मिन् मयि देवाद्रविणमायिनन्ताम् मयि आचेरस्तु मयि देवभूतिः ये व्याहो रावणोर्मे नृष्टास्याम धनुवा सुवीराः पद्यङ्गजन्तः सत्यामनसोमे अस्तु हे मौमानिङ्गनवच्चहम् विश्वे देवाभिमे हे शर्वे ऋण क्रमाय विश्वे देवादय ह वीरयध्वम् प्रजयामादनो धर्मारथायन् अर्गर्मण्यम् प्रजलम् पुनस्ता गोपानः परिपाहिनस्त्वम् प्रत्यञ्चोयन्तु विगुतः पुनस्ते वैषा चित्तम् प्रबुधा विलेषय धाताधातनाम् भवनस्य वितार इम यज्ञमश्विजमानन्यर्थान् गुरुर्गजानो यम् सरस्मि न वे पुरुहोदः पुरुक्षो न मानो रीर्णो मापराधाः यः सपत्रापदे भवन्य योगो स्मृतम् अर्वान्वर्मः समिन्धे विश्वस्याम् विषप्रविषपाकम् समीमहे समामम् चोहरः यस्येवम् प्राणन्यषत्त्वंहसः इन्द्रस्य प्रमारुतो होलन्दासुरामञ्जत्वगुंहसः यः सङ्ग्रामोन्नयदितम् वशी युधेयः पुष्टानि सकम् सृजने त्रयाणि सौमेन्द्रन्न जो हवे नयामि दूषयन् सौभिमित्रावरुणाना जतोजो हवे मिथौ नामञ्च नमागसः मायावस्था विदुर विदधारी मनमहे यावा आत्मन वत्नि भतोय रक्षलः यो विश्वस्य परेभव भवस्तव नाम च रमागतः उपवशेष्टान आशितो देवर्यो धर्म्ये अख्यनः सौभिराय युतविदारण नाशो जो हवेतव नाम च रमागतः कथयेन मोर्तसि नामक्त बोधय सुंगमटो सुमे वृष्पये ेश्वतमागतः ब्रुवन्धप्रेमाम् वाचम् विश्वामोदयतेन मुञ्चन्तेन सह यज्ञमायुधम् वेणगम् सहस्तद्दिव्यगम् सः प्रतनासु जिष्णो सौविदेवान्मरुतो नाजो हविनो मुञ्चन्तेन सह देवानाम्प्रेमा भवन्ति आशो नेमानोदये तेनो मुञ्चन्तेन सह यदिशोचलिपौरुषे येन देव्येन सौमि विश्वानाम् देवान्नाधितोजो हवे मितेनो मुञ्चन्तेन सह अनुनाद्यानुमदरम्भूत्या पृष्ठो दिविह अप्रभेदामभिजभिजोभिष्ठे अपमदाम् वसूनाम् सौमिद्यानाम्नाभितो जो हवे मितेनो मुञ्च नमगुहः उर्वे रोदसेवस्य पत्नीयातम् यत्र वयम् पुरुषत्रायभिष्ठा विद्वागुंसश्च कृपागच्छनागः हृष्वस्वागम्परितेष्वज्ञे यथाहतत्वसमो घौर्यम् चित्परिषितामुञ्चदायत्रा यज्ञे प्रतरायुः वो। समाप्तः